गणेशपुराणम् उपासनाखण्डम् अध्यायं तर्टि त्रि नारद उवाच ऊचुर्देवावृत्रहणं बहिर्याहि शतक्रतो वयं हि सहितास्तत्र नारदेन सुरर्षिणा तं गत्वा गौतममुनिं प्रसाद्य गदाः उपायस्तेन कथितो वरो दत्तस्तवापि च दोषे जाते स्वयं सन्धक् ख्यापयन्ति जनेषु तम् तत्र प्रतिविधिं सम्यक् कुर्वन्ति तन्निरर्थकम् आच्छादने दोषवृद्धिख्यापने तु भवेत् तस्मात्त्वमपि देवेन्द्र बहिरागत्य तं वद देवर्षिं प्रदितं ब्रूहि कुरूपायं मुनीरिदं वैनायकं महामन्त्रं गृहाणत्वं षडक्षरं ब्रह्माददर्ष चाङ्गुष्ठुं विवाहे गिरिजेशयोः च स्कन्दस तदारेतो लज्जिदो वाङ्मुखो गदः ज्ञात्वा महेश्य कृतवान् निर्दोषं तमुपायतः यदि वाणीं स श्रुत्वैव वा देवर्षिगणनिर्मिताम् आ जगाम बहिश्चक्रो नलिनी कोशतो नृप सर्वेषां तत्र देवानां श्रुत्वा वाक्यानि सादरम् पूयशोणिददिग्धाङ्गो मलिनः पूदिगन्धवान् दृष्ट्वा तद्धाविधं देवानेमुः सर्वे सुरेश्वरम् आच्छाद्यघ्राणरन्ध्राणि वस्त्राङ्घ्रैर्नृपसत्तम सुस्नातं पुनराचान्तं तमिन्द्रं वाक्पदिस्तदा षडक्षरं महामन्त्रं गणेशस्योपदिष्टवान् उपदेशे कृते तेन दिव्यदेहो भवच्च सः सहस्रनयनश्रीमान् बभौ सूर्यम् इवाकरः तदो वाद्यनिनादैश्च जय शब्दी सा गर्वा गाननादिद विदिशो दिश मुचुपुष्पर्षाण सर्वे देवा मुद्न्वता आशीषोधदुस्व मुनयो नारदादय आलि आलिलिङ्गुर्मुदा देवास्तुष्टुवुश्चापरेतं केऽप्यूचुस्तं सुमनसः सनाधाहि वयं त्वया विना त्वां नैव शोभामो विना चन्द्रं नभो यथा विना स्वपितरौ बाला न सुखं यान्ति सर्वथा तथा विना व्यम वा लभामशर्म न क्वचिद मुनिवाचत्थम देवचनम जहर्ष चदक्रदु उवाच प्रसन्नाथ्यम वाक्यं सुरां प्रति इंद्र उवाच मया कृतं कर्म सुदुष्करं यद्देवर्षिवाक्येन विमोहितेन लब्धं फलं दुःसहमद्य सर्वैरुद्धारितोऽहं दुरितप्रकोपाद नमामि सर्वानमरप्रबर्हान् नृषींश्च सर्वान् सुगुरुप्रभावान् उद्धर्तुमात्मानमदोऽखिला मां सन्ध्रादो मर्हाः शरणं प्रपन्नम् कथं प्रयत्नो रचितो भवद्भिः प्रसादनायास्य हि गौतमस्य कथं नु मन्त्रम् परममदर्थे स उक्तवांस्तत्कथयन्तु सर्वे देवा ऊचुः मुनिं पुरस्कृत्य गुरुं वयं च गता मुनिं तं प्रणिपत्य सम्यक् प्रसादिदो वागमृतैर्विचित्रैः सयाच्यमानोऽप्यवदत्स्वमन्तं यस्योपदेशेन सहस्रनेत्रो जादो भवान् सर्वसुखाय प्रयाहि देव त्वमरावधीं स्वां प्रसाधि सर्वान् विबुधांश्च लोकान् इन्द्र उवाच नाहं प्रयास्ये स्वपुरीं प्रसादं विना गणेशस्य सुरर्षिवर्याः व्रजन्तु यूयम् कृतः साधुकृत्या धामानि दिव्यानि दिव्यानिमुदारमन्तः एतावतालं प्रकटीकृतोऽहं लज्जा विलीनो दुर्ग प्रसादिदो दुर्गतिश्च रुग्रतेजा यन्मुनिरुग्रतेजा भवत्प्रसादात् बहुनेत्र दामे इति श्रीगणेशपुराणे उपासनाखण्डे त्रयत्रिंशतितमोऽध्यायः ओ